namah ता रेत्र है जग के नमस्ते ya uh... मसे जगता ऋणीत्र हृदर्गे अनाथस्य दिनस तृष्ण तु अंशुधा बद्धस्य जन्तु नम तमे कागेव निस्तरके कमे कागेव निस्तके नमस्ते जग NAMASTE DYAGATA PRINHITRA HIDUGAY PARANNE RALIDHA RULESHA DRUMA DIR NALESHA GYARI RAM त्रिदे निस्था हेतु काग्रिदे निमस्ते जगतारेडी राहे दुर्गे नमस्ते जग परे महादु तरे चन्द भोरे दीप सरे म जतान् देह भज त्वमे कागिर्दे निर्नो कामे कागि नो नमस्ते जगतारिडी ते दुर्गे नमस्ते जग लाशबीते तमेकागतिदे वेग्मेकागतवेग् सन्दोन्तेमेकागति वेग्न सन्दोहन्त्रे नमस्ते मस्ते जगतरिडि त्रहि दुर्गे दमे का जितारा दीता सद्यवदिन यमेया जिता क्रोधना क्रोधनिता डा पिङ्गला त्वं सुसुनाच नाडे इला पिङ्गला त्वं सुसुम्नाच नाडे नमस्ते जगतारिडे राहिदुवे नमस्ते जगतारिडि le mod devuge uvee me na de taras tarun hat mukh swaru devuti satikal ratre रात्रि सति त्वं नमस्ते जगत ऋणी त्र हहिदुर्गे नमस्ते जगत ऋणी त्रहिदुर्गे शरणमशिशुराणा सिद्धविद्या जराणां व्यादवे पीडिताण निपति गृहगताणा दश भेरावृताणां